न भूमिर्नतोऽयं न तेजो न वायुः न खं नेन्द्रियं वा न तेषां न वर्णानवर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि अनात्माश्रयोऽहं ममाध्यासहानात् तदेको वसिष्ठ शिव केवलोऽहं शिव केवलो न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवन्ति सुषुप्तौ निरस्तातिशून्यात्मकत्वा तदेको वसिष्ठ शिव केवलोऽहं शिवः केवलो न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादे वा विशिष्टानुभूत्य विशुद्धात्मकत्वात् तदेको वसिष्ठ शिव केवलोऽहं शिव न शुक्लं न कृष्णं न रक्तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् अरूपं तथा ज्योतिराकारकत्वात् तदेको वसिष्ठ शिव केवलोऽहं शिव केवलो न जाग्रन्न मे स्वप्नको वा सुषुप्तिर्न विश्वो न वा तैजसः प्राज्ञ को वा अविद्यात्मकत्वात्त्रयाणां तुरीयं शिव केवलो न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चो त्वरूपावबोधाद्विकल्पा सहिष्णुः सदेको वसिष्ठ शिवः केवलोऽहं शिवः केवलो न चोर्ध्वं न चाधो न चान्तर्न बाह्यं न मध्यं न तिर्यं न पूर्वापरादिक् इयव्यापकत्वादखण्डैकरूपस्तदेको वसिष्ठ शिवः केवलोऽहं शिवः केवलोह अपि व्यापक त्वादितत्वात् प्रयोगात् स्वतःसिद्धभावादनन्याश्रयत्वात् जगत्तुच्छमेतत्समस्तं फदन्यस्तदेको ैकम् तदन्यद्वितीयं कुतस्यां न च केवलत्वं न वा केवलत्वं न शून्यम् न चाशून्यमद्वैतकत्वात् कथं सर्ववेदान्तसिद्धम् ब्रवी शिवो